गणेशपुराणम् उपासनाखण्डम् अध्यायम् 81. वन् क उवाच रामस्तु वपनं कृत्वा स्नात्वा सम्यविधानतः उद्धानश्राद्धमकरोद्ब्राह्मणैः कथितं यथा विश्रान्तिस्थानमारभ्य मन्त्राग्निमुभयोर दद तदैव प्रययौ तं तु दत्तात्रेयं मुनिं प्रति कुवेषं शिष्यसहितं स्वहस्तं मलिनं कृश्यं ध्यानेनालोक्यतं रामो न नाम मुनिपुङ्गवं बद्धाञ्जलिपुडो तिष्ठद्यामार्धं तत्पुरो द्विजः दत्तात्रयोऽपि सर्वज्ञो बुद्ध्वा तस्याश्रयं मुनिः उवाच राममामन्त्र्य ज्ञातं तव प्रयोजनम् अथापि पृच्छे विज्ञातुम् किमर्थं त्वमिहागदः क उवाच स उवाच तदो रामो वृत्तान्तमादितस्फुटं राम उवाच कृदवीर्यात्मजो राजा विदुराश्रममागतः भोजितः परमान्नेन नानापक्वानशालिना भोक्तः सेनया सार्धम् नुमया यदान दत्ता बलाने का मधेनुम चत यदा ना मे बलादुह मनो दधे साध सुषु सैनिक बलिभी राजा बलिराजा सैन्योगलय कामधेनोर्गदास्वर्गं तदो राजा जमदग्नेर् जमदग्नेर्हृदि शरमहनदृडमोजसा एकविंशधिकान् बाणान् मादुरङ्गे हनदृशा नाहं तत्र स्थितो ब्रह्मन् पश्चादागत्य दृष्टवान् मन्त्राग्निनादु दग्धौ तौ माधुर्वाक्यादिहागतः दत्तात्रेयं विना नान्यो वक्ता कार्योऽत्र कर्मणि कृते कर्मणि सर्वस्मिं त्रयोदशदिनावधि पश्चाद्राजा निकन्धव्यकृतवीर्यात्मजो बलि एकविंशतिवारं च कार्यानि क्षत्रिया मही इद्धमाज्ञापयन् मह्यं जननी रेणुका मम इत्यर्थमिह सम्प्राप्तस्तस्मात् कुरु कृपां मयि ब्रह्मोवाच इति रेणुकायाः सखा मुनिः शोकसंविघ्नहृदयो राममूच इदं वजः दत्तात्रेय उवाच यद्गृहे भुक्तमत्यंतं तेन निष्ठा विरोधिता यदि दुष्टेन साकारिद्रष्टा तत फलमन्दिकात् इदानीं तु तयोः सम्यगौर्ध्वदेहिकमाचर ब्रह्मोवाच तद आश्रममागत्य दत्तात्रेययुतस्तु सः रामश्चकारभक्त्यैव पित्रोरुत्तरकर्म तद् दत्तात्रेयो मन्त्रैषद्वितीयदिवसावधि समाप्ते कर्मणि मुनिर्गन्तुं कोल्हापुरं मनः चक्रे तदा ब्रविद्रामः कदा यादि भवान् पुनः मुनिः प्रोचे यदा त्वं मे स्मरणं वै करिष्यसि दत्तात्रेय इति तदा मां द्रक्ष्यसेनख कृत्वा कर्म व्रजत्येव भिक्षिदुं दिने दिने अशौचिनो न भोक्तव्यमन्नमित्यभिचिन्तयन् पञ्चमे दिवसे कर्म समाप्तमुनिपुङ्गवः गृहीत्वा गदो यावत्तावद्व्याघ्रसमाययौ माधर्मा धक्व याम्यद्येत्येवं शुक्रोश्च तद्भयाद आविराभूत्तदा मादा रेणुका मम वाक्यदः असम्पूर्णशिरो मात्रा पुत्रस्नेहवशेन हि यदि द्वादशरात्रात् साहूदा स्यात् भार्गवेणतु आगदा स्यात् सा सम्पूर्णा सर्वाह्वयवशोभिनी उवाच तं किमाहूता वदबालप्रयोजनम् आलिलिङ्गतदा स्नेहाद्रामं स्नुतपयोधरा दत्तात्रे यः पुनरगात् षष्ठे च दिवसे मुनिः अपश्य रेणुकां तत्र तादृशीं मध्य एव किमाहूता न्यून देहा समागदा स पिण्डी करणादूर्ध्वं यद्याहूदा आगता स्याद्रेणुगेयं तव स्नेहाद्विजर्षभ राम उवाच बालभावाद्भयाद्ब्रह्मन् स्वभावान् मादरित्यहम् उक्तवान् मुनिशार्दूल दृष्टवानीदृशीमिमाम् पृषोत्सर्गं च कृत्वानेकादशदिने द्विजः सपिण्डीकरणं चैव द्वादशे कृतवान् द्वयोः तदपरेनिपाधेयं श्राद्धं पुण्याहवाचनं ददौ दान्यनेकानिब्राह्मणेभ्यो यथार्हदः जमदग्निर्दिव्यदेहो ब्रह्मलोकमधागमत तस्तौ सारेणुकभूमौ स्थाने स्थाने च तादृशी पूरयत्यखिलान् कामान् जनानां भक्तिकारिणां माहात्म्यं विस्तृतं तस्यास्कान्दे प्रोक्तं विशेषतः अदिविस्तारभीत्यात्र न प्रोक्तं मुनिसप्तमा इति श्रीगणेशपुराणे उपासनाखण्डे रामोपाख्यानम् एकाशीतितमोऽध्यायः ॐ